मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं तर्टि सवेन् लोभासुरस्येन्द्रपदप्राप्तिवर्णनम् श्रीगणेशाय नमः मुद्गल उवाच लोभासुरसमागत्य पितरमादरं ततः प्रणम्य सुहृदः सर्वान्यथायोग्यम् चकारः महिषासुरपुत्रीं स उवाहरूपशालिनीम् तृष्णाम् गुणयुधांसोऽपि तया संघर्षितोऽभवद एवम् नानाविभोगेन सुहृदानन्दकारकः बभूव बलसंयुक्तो मदेन भृशमोहिदः मह्यां समागधसोऽपि दानै परिवारिधः नगरं निर्ममे तत्र सदा विषयवर्धनं चकार नामतस्यापि सुखदं दानवेरिदः तदो दिग्भ्यः नानादैत्यगणाः पुरे तदो लोभोऽसुरै सर्वैः स्वयं गत्वा महामुनिम् शुक्रं समानयत्तत्र प्रणम्य भावसंयुधः शुक्रेण प्रेरितादैत्या गदास्तत्र महापुरे देवान्तकश्च वृत्रश्च बलिर्जृम्भः प्रतापवान् नरान्तकः प्रहेतिश्च विप्रचितिस्तधा इत्याद्या बहवश्चान्ये मिलिता अभवन् प्रभो ब्राह्मणैः कारयामास तदच्छुक्रोऽभिषेचनम् दैत्यादीनां महाराज्ये स्थापयामास तं मुनिः सर्वे संहृष्टकास्तत्र बभूवुर्धानवोत्तमाः तदस्वस्व गृहेष्वेदे गमन् कोशकारा भृशम् तदो बहौ गदे काले सुरो लोभः प्रतापवान् आह्वयामास दूतैष्टान् दानवान् बलसंयुधान् आज्ञामात्रेण तस्यैव समाजग्मुर्बलान्विताः असुराभयदा सर्वे सुरं लोभं प्रजापदे लोभासुरोः सुरान् सर्वान् सम्प्रपूज्य यथा विधि उवाच तान्महावाक्यं हर्षयन् दानवोत्तमः लोभासुर उवाच विप्रचित्यादिका सर्वे शृणुध्वं मे वचोहितं भवतां पुण्ययोगेन जेष्यामि सकलं जगद यदीच्छा भवतां वृद्धा श्रेष्ठा अत्रैव सङ्गताः तदा ज्ञा मे प्रकर्तव्या करोमि बलसंयुतः एवं तस्य वच श्रुत्वा हर्षिता दानवोत्तमाः जुगुस्थं भावगम्भीरम् साधु साधुत्वयेरिदं जेश्यामस्त्वत्प्रसादेन देवान् विष्णुपुरोगमान् पराक्रमतुलातेन विद्यते जगति प्रभो ततोदिहर्षिदा सर्वे शुक्रं तत्र समानयन् ते नाज्ञप्ता महाभागाः सज्जास्ते विरे गजासुरो देवांतक विप्रसिर्देवान्तकनरान्तकौ प्रतापवांश्च तारो वै प्रसेदिर्हेदिरेव च बलिर्जृम्भस्तथान्ये वै दंशिदा अभवंस्तदा स्वस्वसेनायुधा सर्वे नाना वाहनगा नानावाहनगा बभुः पदादयोऽप्यसङ्ख्यादा अश्वारोहस्तदा परे पशुसंस्था खगाराः अपाराश्च समायेयुः गजारोहा गजारोहारथारूढा नानावाहनसंस्थिताः महासुराशस्त्रसंयुक्ता लोभासुरमाययुः तैः समेत्य लोभसंहर्षितो भवद पृथिवी जयनार्थाय कालकम्पनकारकः एतादृशा महावीरा यत्रातिष्ठन् सुदर्शिताः तैर्युद्धम् नृपशार्धूलाः किम् कर्तारोऽल्पमानवाः नृपाः केचिन्मृतास्तत्र सङ्ग्रामे दारुणे प्रभो केचित्तान् शरणम् जग्मुः पलायन पराययुः एवं सप्तसमुद्रान्तां पृथ्वीं जित्वा महाबलाः असुरा हर्षिदा सर्वे सार्वभौमा बभूविरे ये मृतास्तत्सुधास्तैस्ते स्थापिधा करदायिनः पलायिताश्च तत्स्थाने स्थापिदा दानवोत्तमाः शरणं ये गदास्तेऽभिस्थापिता हर्षसंयुधाः वरं तस्य समाज्ञाय शेषस्तांश्च समाययौ वार्षिकं करभारं स कृत्वा दत्त्वा महाधनं साम्ना तैः पूजिदसोऽपि स्वगृहे नागराड्ययौ ततोदिहर्षिदैत्यायुः स्वर्गं सुशोभनं लोभासुरेण संयुक्ता महामाया महाबलाः इन्द्रसुरगमैः सार्धं दंशिदो वज्रधारकः बृहस्पतिं प्रणम्यैवं जगादस्वमतं प्रभुः इन्द्र उवाच लोभासुरसमायादो दानवैर्बलवत्तरैः तेन योद्धुं गमिष्यामि त्वदाज्ञा वशगः प्रभो इन्द्रस्य वचनं श्रुत्वा निःश्वस्य मुनिपुङ्गवः जगाद तं महेन्द्रं बृहस्पतिः प्रदापवान् गुरुरुवाच शैवेन वरदानेन युक्तोऽसौ दैत्यनायकः नानारूपधरसोऽपि जेतुं नैव प्रशक्यते अधः परित्यज्य विष्णोस् च शरणं सुर गच्छ सोऽपि महाबुद्धिकरिष्यदि हिदं महद गुरोर्वचनमाकर्ण्य सुरेन्द्रशोकसंयुतः सुरेन्द्रै सहिदसोऽपि विकुण्ठमगमत्तदा देवस्थानानि सर्वाणि दृष्ट्वा शून्यानि सर्वतः दैत्या हर्षयुधा सर्वे प्रवेशं चक्रुरञ्जसा दैत्यराजोमरावत्यां लोभः सर्वसमन्वितः गत्वा सनि महेन्द्रस्य समारूढो बभौ स्वयं सम्मान्य सम्मान्यदैत्येन्द्रो ददौ नानापदानि सह दैत्येन्द्रास्तत्र संस्थास्ते मुमुदुर्भोगकारकाः गन्धर्वास्तमः दैत्यमप्सरोभिः समन्विताः शिषे विरे प्रजापालविद्याध्राध्याः समादृताः देवोद्यानेषु दैत्येन्द्रा बभ्रमुर्हर्षसंयुताः यत्र तत्र महाभागाव्यहरंस्ते यथा सुखं लोभासुरं प्रणम्यैव संस्थिदा विकदज्वराः अवदन्न समः कश्चिल्लोभेन भुवनेषु च ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चदुर्थे खण्डे गजाननचरिते लोभा सुरस्येन्द्रपदप्राप्तिवर्णनं नाम सप्तत्रिंशोऽध्यायः ओ